श्रीहरये नमः अत एकाशीतितमोऽध्यायः श्रीशुक उवाच सयित्वं द्विजमुख्येन सह सङ्कथयन् हरिः सर्वभूतमनोपज्ञस्मयमान उवाच तम् ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियं प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः श्रीभगवानुवाच किमुपायनं आनीतं ब्रह्मन्मे भवता गृहात् अन्वपि उपाहृतं भक्तैः प्रेम्णा भूर्येव मे भवेत् भूर्यप्यभक्तोपहृतं न मे ोषाय कल्पते पत्रं पुष्पं फलं तोयं योमे मे भक्त्या प्रयच्छती तदहं भक्त्युपकृतमस्मामि प्रयतात्मनः युत्युक्तोऽपि द्विजस्तस्मै व्रीडतः पतये श्रियः पृथुक् प्रसृतिं राजन्न सर्वभूतात्मदृक् साक्षात् अस्यागमनकारणं विज्ञाया चिन्तयन्नायं श्रीकामो मा भजत्पुरा पत्न्या पतिव्रतायास्तु सखा प्रियचिकीर्षया प्राप्तो मामस्य दास्यामि सम्भतो स्वयं जकार किमिदमिति पृथुकदण्डुलान् नन्वे तत् उपनीतं मे परमप्रीणनं सखे तर्पयन्त्यङ्गमां विश्वम् एते पृथुकतण्डुलाः इति मुष्टिं सकृज् जग्त्वा द्वितीयां जग्धुमादते तावद्धिजगृहे हस्तं तत्परा परमेष्टिनः एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये अस्मिन् लोके तवामुष्मिन् पुंसस्त्वत्तोषकारणम् ब्राह्मणस्तां तु रजने उषित्वाच्युतमन्दिरे भक्त्वा पीत्वा मेने आत्मानं स्वर्गतं यत् स्वभूते विश्वभावेन स्वसुखेनाभिवन्दितः जकामस्वालयं तातपद्यनो व्रजनम् चालब्धवाधनं कृष्णात् न तु याचितवान् स्वयं स्वगृहान् व्रीडितो गच्छत् महद्दर्शननिर्व्रतः अहो दृष्टा ब्रह्मण्यथा मया यद्धृत्रतमो क्वाकं दरिद्रपापीयान् क्व कृष्णश्रीनिकेतनः ब्रह्मभं तुरितिस्माकम् बाहुभ्यां पररम्भितः निवासितप्रिया जुष्टे पर्यङ्के भ्रातरो यथा महिष्यावीजितश्रान्तो वालव्यजनहस्तया शुश्रूषया परमया पादसंवाहनादिभिः पूजितो देवदेवेन विप्रदेवेन देववद् स्वर्गाभवर्गयो पुंसां रसायाम्भुवि सम्पदां सर्वासामपि विसिद्धीना मूलम् तच्छरणार्चनम् अथनोऽयं धनम् प्राप्य माध्यन्नुच्छैर्न मां स्मरेत् इति कारुणिको नूनं धनं मे भूरिनादधात् इति तच्चिन्तयन्नन्तः प्राप्तो निजगृहान्तिकम् सूर्यानलेन्त्वसङ्काशैर्भिमानैः सर्वतोव्रतं विचित्रोपवनोध्यानैः कूजद्विजकुलाकुलैः प्रोत्पुल्लकुमुताम्भोजकल्होरोत्पलवारिभिः जुष्टं स्वलङ्कृतैः पुंभिस्त्रीभिश्च हरिणाक्षिभिः किमिदं कस्य वास्तानं कथं तदितथमिद्यभूत् एवं मीमां समानं तं नरा नार्यो मरप्रभागं गीतवाद्येन भूयसा पतिम् आगतम् आकर्ण्य पद्म्युर्दर्शाति सम्भ्रम निश्चक्रामगृहात् तूर्णं रूपिणी श्रीरिवालयात् पतिव्रता पतिं दृष्ट्वा प्रमोत्कण्ठाश्रुलोचनं मिलिताक्षनमद्भुद्या मनसा पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव दासीनां निष्ककण्ठीनां मध्ये भ्रान्तिं स विस्मितः प्रीतस्वयं तया युक्तप्रविष्टो निजमन्दिरं मणिस्तम्बसतोपेतं महेन्द्रभवनं यत पयः पेन निभासय्या दान्तारुक् परिश्च दाः पर्यङ्का हेमदण्डानि सामरव्यजनानि च आसानि च हैमानि मृधोपस्तरणानि च मुक्ताधामविलम्बिनि विधानानि द्युमन्ति च स्वच्छस्फटिककुढ्येषु महामारकथेषु च रत्नदीपा प्रजामाला ललनारत्नसंयुताः विलोक्यब्राह्मणस्तत्र समृद्धि सर्वसम्पदां तर्कयामास्त स्वसमृद्धिमहैतु किं नूनं पदै तन्ममधुर्भगस्य शश्वद्धरित्रस्य समृद्धिहेतुः महाविभूतेरवलोकतोऽन्यो नैवोपपद्येत यदुत्तमस्य नन्म ब्रुवाणो दिशते समक्षं याचिष्णवे भूर्यपि भूरि भोजः पर्जन्यवत्तत् स्वयमीशमाणो दासार्हकाणा मृषभः स कामे किञ्चित् करोत्युर्वपि पल्ग्वपि भुभुरिकारि मयोपनीतां पृथुकैकमुष्टिम् प्रत्यग्रहीत् प्रीतियुतो महात्मा तस्यैव सौहृदसख्यमैत्री दास्यं पुनर्जन्मनि स्याद् महानुभावेन गुणालयेन विशज्जतस्तत्पुरुषप्रसङ्गः भक्ताय चित्रा सम्पदो राज्यं विपूतिर्न समर्थयत्यजहान् अदीर्घबोधाय विचक्षणस्वयं पश्यन्निपातं धनिनामधोद्भवम् इत्थं व्यवसितो बुद्ध्या भक्तो जनार्दने विषयाञ्झायया त्यक्षन् बुभुजेनातिलम्पटः तस्य वै देवदेवेस्त्य हरेर्यज्ञपते प्रभोः ब्राह्मणा प्रभवो दैवं न तेप्यो विद्यते परम् एवं सविप्रो विप्रो भगवत् सुहृत्तथा दृष्ट्वा स्वभृत्यै अजितं पराजितं तद्ध्यानवेगोद्ग्रथित आत्मबन्धनस् तद्धामलेबे चिरतशतां गतिं एतद्ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः लब्धभावो भगवति कर्मबन्धात्मिमुच्यते इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्धे पृथुको भाग्यानं नाम एकाशीतितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्ता सद्गुरोनाथ महराजिकी जै